सप्तपञ्चाशदधिकशतमोऽध्यायः ब्राह्मण्युवाच न सन्तापस्त्वया कार्यः प्राकृतेनेव कर्हि चित् न वैद्यस्य तव विद्यते अवश्यम् निधनम् सर्वैर्गन्तव्यमिह मानवै अवश्यम्भाविन्यर्थे वै संतापोनेह नेह विद्यते भार्या पुत्रोथ दुहिता सर्वमात्मार्थमिष्यते यथाम् जहिषु बुद्ध्या त्वम् स्वयम् यास्यामि तत्र च एतद्धि परमम् नार्याः कार्यम् लोके सनातनम् प्राणानपि परित्यज्य यद्भर्तुहितमाचरेत् तच्च तत्र भवत्यमुत्र चाक्षय्यम् लोकेऽस्मिंश्च यशस्करम् एष चैव गुरुर्धर्मोऽयम् प्रवक्ष्याम्यहम् तव अर्थश्च तव धर्मश्च भूयानत्र प्रदृश्यते यदर्थमिष्यते भार्या प्राप्तः सोऽर्धस्त्वया मयि समर्थः पोषणे चासि सुतयो रक्षणे तथा न त्वहम् सुतयोः शक्ता तथा रक्षणपोषणे मम हि त्वद्विहीनायाः सर्वप्राणधनेश्वर कथम् स्याताम् सुतौ बालौ भरेयम् च कथम् त्वहम् कथम् हि विधवानाथा बालपुत्रा विना त्वया मिथुन जीवयिष्या स्थिता साधुकते पथि अहम कृताविस्थ्यमना मं सुयुक्त संबंधे कथम शक्ष्यासृमा शं भूमौय सर्वे पतिना साहं विचाल्यमाना वै प्रार्थ्यमाना दुरात्मभिः स्थातुम् पथि न शक्ष्यामि सज्जनेष्टे द्विजोत्तम कथम् तव कुलस्यैकामिमाम् बालामनागसम् पितृपैतामहे मार्गे नियोक्तुमहमुत्सहे कथं शक्ष्यामि बालेऽस्मिन् गुणानाधातुमीप्सिताम् अनाथे सर्वतो लुप्ते यथात्वं धर्मदर्शिवान। धर्मदर्शिवान् इमामपि च ते बालामनाथाम् परिभूय माम् अनर्हाः प्रार्थयिष्यन्ति शूद्रावेदश्रुतिम् यथा ताम् चेदहम् न दित्सेयम् त्वद्गुणैरुपबृंहिताम् प्रमथ्यैनाम् हरेयुस्ते हविर्ध्वाङ्क्षा इवाध्वरात् सम्प्रेक्षमाणा पुत्रम् ते नानुरूपमिवात्मनः अनर्हवशमापन्नामिमाम् चापि सुताम् तव अवज्ञाता च लोकेषु तथात्मानमजानती मया बालौ त्वया तथात्मजौ विनश्येताम् न सन्देहो मत्स्याविवजलक्षये त्रितयम् सर्वथाप्येवम् विनशिष्यत्य संशयम् त्वया विहीनम् तस्मात् त्वम् माम् परित्यक्तुमर्हसि व्युष्टिरेषा परा स्त्रीणाम् भर्तुः पराम् गतिम् गन्तुम् ब्रह्मन् धर्मविदो विदुः मितम् ददाति हि पितामितम् मातामितम् सुतः अमितस्य हि दातारम् का पतिम् नाभिनन्दति परित्यक्तः सुतश्चायम् दुहितेयम् तथा मया बान्धवाश्च परित्यक्तास्त्वदर्थम् जीवितम् च मे यज्ञैस्तपोभिर्नियमैर्दानैश्च विविधैस्तथा विशिष्यते स्त्रिया भर्तुर्नित्यम् प्रियहिते स्थितिः तदिदम् यच्चिकीर्ष्यामि धर्मम् परमसम्मतम् इष्टम् चैव हितम् चैव तव चैव कुलस्य च इष्टानि चाप्यपत्यानि द्रव्याणि सुहृदः प्रियाः आपद्धर्म प्रमोक्षाय भार्या चापि सताम् मतम् आपदर्थे धनम् रक्षेद्दारान् रक्षेद्धनैरपि आत्मानम् सततम् रक्षेद्दारैरपि धनैरपि दृष्टादृष्टफलार्थम् हि भार्यापुत्रो धनम् गृहम् सर्वमेतद्विधातव्यम् बुधानामेश निश्चय एकतो वाकुलं कृत्स्नमात्मा वाकुलवर्धन न समम् सर्वमेवेति बुधानामेष निश्चयः स कुरुष्व मया कार्यम् तारयात्मानमात्मना अनुजानीहि मामार्यसुतौ मे परिपालय अवध्याम् स्त्रियमित्याहुर्धर्मज्ञाधर्मनिश्चये धर्मज्ञान् राक्षसानाहुर्नहन्यात्स च मामपि निःसंशयम् वधः पुंसाम् स्त्रीणाम् संशयितो वधः अतो मामेव धर्मज्ञ प्रस्थापयितुमर्हसि भुक्तं प्रियाण्यवाप्तानि धर्मश्च चरितो महान् त्वत्प्रसूतिः प्रिया प्राप्ता न माम् जातपुत्रा च वृद्धा च प्रियकामा च ते समीक्ष्यैतदहम् सर्वम् व्यवसायम् करोम्यतः उत्सृज्यापि हिमामार्यप्राप्स्यन्यामपि स्त्रियम् ततः प्रतिष्ठितो धर्मो भविष्यति पुनस्तव न चाप्यधर्मः कल्याणबहुपत्नीकृताम् नृणाम् स्त्रीणामधर्मः सुमहान् भर्तुः पूर्वस्य लङ्घने सक्ष्यवाम आत्मत्यागर्तं तारयाद्याशुकुम चेमौ चारकौ वैशंपायन उवाच एवस्त भर्ता सलिंग्य भारत मुमोच बाष्पन सो भृश दुखित्री महाभारते आदिपर्णि बकवधपर्वण ब्राह्मणी वाक्ये सप्तचाशिकमोध्याय